गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टि पार्वत्युवाच अहं मन्त्रेण जानामि गिरीन्द्रमेवद स्वयम् अनुग्रहं गणेशस्य यामियामि यामि शिवं शिवं हिमवानुवाच मन्त्रानाविधा देविनासिद्धिप्रदायकाः असङ्ख्यादा गणेशस्य कांश्चित्तेषु वदामि ते कृत्वा पद्मासनं सम्यक् नियम्यथानि सर्वशः कृतन्यासविधिः पश्चाज्जपं कुर्यान्निजेच्छया एकाक्षरस्य मन्त्रस्य लक्षं लक्षार्धमेव च षडक्षरस्य मन्त्रस्य नियतं चयुधं तथा तथा पञ्चाक्षरस्यापि दशाष्टाक्षरयोरपि अष्टाविंशद्वर्णमन्त्रो जक्तव्यो युधसंख्यया एवं नाना ीथान् मन्त्रापन्दिष्टसिद्धये त्वं तु पार्वति मे वाक्यं शृणुष्वैकाग्रमानसा एकाक्षरं षडर्णं च गृहाणमन्त्रमुत्तमं नभशुक्लचतुर्थ्यां त्वमारम्भं कुरु सुह्रदे अनुष्ठानं मासमात्रं कुरु कार्यं भविष्यति शिवं प्राप्स्यसि सुव्यक्त मन्यद्य चापि वाञ्छितं पार्थिवी पूजिता मूर्तिस्त्रिया वा पुरुषेण वा एकाददाति सा काम्यं धनपुत्र पशूनपि असाध्यं साधयेन्मर्त्यो मूर्तिद्वय प्रपूजनाद त्रिमूर्तिपूजनाद्राज्यं रत्नानि सर्वसम्पदः चतुर्मूर्तिः पूजयेद्यो धर्मार्थं काममोक्षभाक सार्वभौमो भवेद्राजा पञ्चमूर्तिप्रपूजनाद पूजया षण्मूर्तिपूजया सृष्टिस्थितिप्रलयकृद्भवेद् सप्ताष्टनवमूर्तीनां पूजया सर्वविद्भवेद् भूदम्भव्यं भविष्यं च वेतिदेवप्रसादतः त्रयस्त्रिंशत्कोटिदेवा वह्नीन्द्र शिवविष्णवः वह। सनकाद्यामुनिगणासेवन्ते दशपूजनाद् एका दशार्चनादेव दश रुद्राधिपो भवेद् द्वादशादित्यराज्यं च लभेच्छ द्वादशार्चनाद् अदिसङ्कटवेलासु कुर्याद्वृद्ध्या प्रपूजनम् अष्टोत्तरशतम् यावत् तावत् तत्तदवाप्नुयाद महामुक्तिमवाप्नोति लक्ष पूजनदोऽन्वहं कारागृहान्मुक्तिकामः कारयेन्मूर्तिपञ्चकं त्रिसप्तरात्रान्मुच्येद गणेशानुग्रहान्मुने सप्तमूर्तिप्रकुर्वीद प्रत्यहं पञ्चवत्सरं महापापाप्रमुच्येद गणेशे भक्तिमान नरः आजन्ममरणादेगां पूजयेत् पार्थिवीनरः गणेश सदुविज्ञेयो दर्शनाद्विघ्ननाशनः तमेव सर्वकामेश पूजयेन्न गणाधिपम् तस्यैव पूजया प्रीदो न देवः स्यात्तथा स्वयम् मूर्तीनां त्रयमुत्तमं नवाकं पूजयेद्यस्तु सर्वपीडां व्यपोहदि सौवर्णिराजधीतां रीरीदिकां स्य मौतिकी च प्रबाली च सर्वमेतत् प्रयच्छति एवं कृते वृदे देवि सर्वान् कामान् अवाप्स्यसि यावद् प्रभाते विमले स्नात्वा पूर्ववत्पूजयेद्विभुं गणेशं वरदं देवं ततो होमं समारभेद कुण्ठे साङ्गंस्तण्डिले वा कूयाज्जपदशांशदः पूर्णाहुदिं तथः कुर्याद् बलिदानपुरःसरम् गोब्सोधनादिभिः ब्राह्मणां स्तोषयेत्पश्चाद्धोमशेषं समापयेद् तर्पयेत् तद्दशांशेन तद्दशांशेन भोजयेद् ब्राह्मणान्वेदविदुषसपत्नीकांश्च कांश्चनान् काम्ष्चा, तेभ्यो भूषणवासांसि दद्याचक्रिया चक्षिण दध्यामकारा योषिभ्य सकुंजुका गणनाथ सेुत्यढ़ीद यदा विभव तदत्सुहृज्जनयुधस्वयं भुञ्जीदसादरम् अपरस्मिन् दिने मूर्तिं नृयाने स्थापयेन्मुदा छत्रध्वजपदाकाभिश्चमरैरुपशोभितां किशोरैर्दण्डयुद्धेन युभ्यद्भिश्च पुरःसरं महाजलाशयं गत्वा विसृज्य निनयेज्जले वाद्य धनिध निज मंदरमा व्रजेद यदि श्रीगणेशपुराणे उपासनाखंडे हिमवदिरीजा संवाद चतुव्रतकथनम पंचाशतम ओं